कृष्ण कृष्णयजुर्वेदीय अश्वमेधम् हरिः ओ साग्रहण्येष्ठ्या यजदे इमां जनतागं सङ्गृह्णानिधि द्वादशारत्नीरशना भवति द्वादशमासा संवत्सरः संवत्सरमेवावरुन्धे मौञ्ची भवति ऊर्ध्वै मुञ्चाः ओर्जमे वावरुन्थे चित्रा चित्र नक्षत्रं भवति चित्रं वा एतत्कर्म यदस्वमेधत्समृद्ध्यै पुण्यनामदेव यजनमध्यवस्यदि पुण्यामेव कीर्तिमभिजयदि अपदादी समा वसन्द्या सुब्रह्मण्यायाः सुवर्गस्य लोकस्य समष्ट्यै केशश्मश्रु वपते नखानि निकृन्तदे दन्तो धावदे स्नाति अख तं वासपरिधत्ते चय्योपवसति सुवर्ग से लोकसुप्त रात्रि जागर यसधे सुवर्ग से लोकस्या समष चुष्ट्य आपो भुतुशो वाश्व प्रजापत्य सृद्ध्य दिभ्य समाभृता भवन्ति दिक्षु वा आपः अन्नं वा आपः अद्भ्यो वा अन्नं जायते यदेवाद्भ्योऽजायते तदवरुन्धे तास्तु ब्रह्मौदनं पचति रेदयेव तद्धदाधि चतुशरावो भवति दिक्ष्वेव प्रतिष्ठति उभयदो रुक्मौ भवदः उभयद एवास्मिन् रुचं दधाति उद्धरति श्रुतत्वाय सर्पिष्वान्भवदि मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिश्या मे वज्योतिषि चत्वारि हिरण्यानि ददाति दिशा मे वज्यो दीदृश्य वरुन्धे यदाज्यमुच्छिष्यते तस्मिन् रशनान्युन्नति प्रजापदेर्वा ओदनः रदाज्यं यदाज्ये रशनान्युनत्ति प्रजापतिमेव रेतसा समर्थयदि दर्भमयी रशना भवति बहु वा एषकुचरो मेभ्यमुपगच्छदि यदश्वः पवित्रं वै दर्भाः यद्दर्भमयी रशना भवति पुनात्ये वैनम् तोदमेनं मेध्यमालभदे अश्वस्य वा आलब्धस्य महिमोदक्रमाद स महर्त्विजः प्राविशद तन्महर्त्विजामहर्त्विक्त्वं यन्महर्त्विजः प्राश्नन्ति अश्वस्य वा आरब्धस्य रेद उदक्रामद तत्सुवर्णगुं हिरण्यमभवद यत्सुवर्णगुं हिरण्यं ददाति रेद एव तद्धादि ओदने दधाति रेदो वावो धन रेदो हिण्यमद्वास्मद यो वै ब्रह्मणे दजापद ये प्रतिच्याश्वेध्यम बध्नादी आदेवताभ्यो पृच्य दापीयावति योच्य न देवताभ्य आच्यते वसाभव यदा ब्रह्म नेध्यम भंस्या दवेभ्य प्रजापदे तेन राध्यासमीति ब्रह्म वै ब्रह्म ब्रह्मणे दजापदे प्रदि मेध्यं प्रोच्याश्वेध्यम बघ्ना देवताभ्य आवृच्य दस्यदु प्रसवना दत्ते प्रसूतई अश्विनो अश्विनोर मिथ्याह अश्विन्नौ देवाना मध्वर्यु आस्था पूष्णो हस्त अभ्यामित्याह यत्यै वृद्धं वा यदद्यस्य यद यजुष्केण क्रियते इमां गृह्णन् रशनामृतस्येत्यधिवदधि यजुष्कृत्यै यज्ञस्य समृद्ध्यै तदाहुः द्वादश रत्नी रशना कर्तव्या आ, आ त्रयोदशारत्नी ई इति वृषभो वा एष ऋतूनां यत्संवत्सरः तस्य त्रयोदशो मासोविष्टपम् ऋषभ यदश्वमेधः यथा वार्षभस्य विष्टपम् एवमेधस्य विष्टपम् त्रयोदशमरत्निगुं रशनायामुपादधाति यद्धर्षभस्य विष्टपगं सघृस्करोति तादृगेव दद पूर्व आयुषि विदधेषु कवेद्याः आयुरेवास्मिन् दधाति तया देवासुदमा बभूवुत्याह भोदिमेवोपावर्तदे ऋदस्य सा मन्सरमारबन्दित्याह सत्यं वा ऋतम् सत्येन वैनेन मृतेनारभते अभिधा असीत्याः तस्मादश्वमेधयाजि सर्वाणि बोधान्यभिभवति भुवनमसीत्याह भूमानमेवोपैधि यन्दासीत्याह यन्तारमे वैनं करोति दर्ता सीत्याह दर्ता रमे वैनं करोति सोऽग्नि वैश्वानरमित्याह अग्नवे वैनं वैश्वानरे जुहोति सप्रथ समित्याह प्रजयै वैनं पशुभिप्रथयदि स्वाहा कृद इत्याह म एवास्यैषः पृथिव्यामित्याह अस्यामेवैनं प्रतिष्ठापयदि यन्दा राड्यन्दासि यमनो धर्तासि धरुण इत्याह रूपमेवास्यैतन्महिमानं व्याचष्टे कृष्ययित्वा क्षमायित्वा रय्ययित्वा तोषायत्वेत्याह आशिष मे वैदामाशास्ते स्वगात्वा देवेभ्य इत्याह देवेभ्य ये वैनग्निस्वगा करोति स्वाहात्वा प्रजापदय इत्याह प्राजापत्यो वा अश्व यस्या एव आलभ्यते तयै वैनगं समर्धयदि यः पुत्रः स यो मातुरनुजायाः पुत्रः स विश्वं च मे वास्मादपाप्मानं विबृहतः यो अरुवन्दं जिकागुं सदि तमभ्यमेदि वरुण इति श्वानं चतुरक्षं प्रसौति पर्तोमर्थपरश्वेदि शुनश्चतुरक्षस्य प्रसन्ति श्वेव वै पाप्मा भ्राधृव्यः पाप्मानमेवास्य भ्राधुर्व्यगं हन्ति शैद्रकं मुसलं भवति कर्म कर्मै वास्मै साधयदि पौघुश्चलेयो हन्ति पुगुश्चल्वां वै देवशुचं न्यदधुः शुचैवास्य शुजगुंहन्ति पाप्मा वा यदमी सदित्याहुः योऽश्वमेधेन यजद इति अश्वस्याधस्पदमुपास्यदि वज्री वा अश्वप्राजापत्यः वज्रेणैव पाप्मानं भ्रातृव्यमव क्रामदि दक्षिणा पप्लावयति पाप्मानमेवस्मा चमलमवप्लावयति ऐशिका उदुहो भवति आयुर्वा ईशिकाः आयुरेवास्मिन् दधति अमृतं वा इशिकाः अमृतमेवास्मिन् दधति वेद स शाखोपसम्बद्धा भवति अप्सु यो निर्वा अश्वः अप्सु यो वेदसः स्वदेवैनै यो निर्निर्मिमी ते पुरस्तात् प्रत्यञ्जमभ्युदुहति पुरस्तादेवास्मिन् प्रतीच्य मृदं दधाति असं चत्वं च वृत्रहन्निधि ब्रह्म यजमानस्य हस्त गृह्णादि ब्रह्मक्षत्रे एव सन्दधादि अभिप्रत्वेन्द्रभूर्धज्मन्नित्यध्वर्ज्युर्यजमानं वाजयेत्यभिजित्यै चत्वार ऋत्विजः समुक्षन्धि आभ्यये वैनम चतसभ्यो दिभ्यो भी राजपुत्राई सहाध्वर्यो राजुत्रु प्रत्यंतिष्टन प्रत्यंग अनेनाश्वेन अनेश् मेध्यने अयुमराज पुत्र वी राज्य वध्ु क्षत्रगंराजपुत्रः राज्येनैवास्मिन् क्षत्रं दधाति से नाराजभिरुघ्रैः सह ब्रह्मा दक्षिणद उदङ् तिष्ठन् अनेनाश्वेन ना मध्येनेष्ट्वा अयगं राजा प्रदेधृष्योऽस्त्विति बलौ वै ब्रह्मा बलमराजोग्रह बलेनैवास्मिन् बलं दधाति शतेन सुदग्रामणिभिः सह कोदा पश्चात् प्रान्तिष्ठन् प्रोक्षति अनेनाश्वेन मेध्य नेष्ट्वा अयगं राजास्यै बहुघ्वै बह्वस्वायै बह्वजाविकायै बहुव्रीहियवायै बहु माषतिरायै बहुहिरण्यायै बहु बहु बहु बहुहस्तिकायै बहुदासपूरुषायै रयिमै पुष्टिमत्यै बहुराय स्पोषायै राजास्त्विदी गोमा वैहोदाूमा सुदभ्रामण्यः भूम् नैवास्मिन् गोमानं दधाति सदेनक्षत्र सङ्गृहीत्रिभिः सफोद्गादा उत्तरदो दक्षिणातिष्ठन् प्रोक्षति अनेनश्वेन मेध्येनेष्ठवा अयगुं राजा सर्वमायुरेत्विधि आयुर्वा उद्गाद आयुक्षतः सङ्ग्रहीतारः आयुष्यैवास्मिन्नायुर्दधाति शदगुं शदं भवन्ति सदायुपुरुषः सदेन्द्रियः आयुष्यवेन्द्रिये प्रतिष्ठति चतु सदा चतस्रो दिशः दिक्ष्वेव प्रतिष्ठति यथा वै हविषो गृहीतस्य स्कन्ददि एवं वा यदश्वस्य स्कन्ददि यन्निक्तमनालब्धमुत्सृजन्ति यस्तोक्या अन्वाः सर्वहृद मे वैनं करोक्त्यस्कन्धाय अस्कन्नगं तद तद् यद्धुतस्य स्कन्धदि सहस्रमन्वाः सहस्रसंमिदसुवर्गो लोकः यत्परिमिदा अनुब्रूयाद परिमिदमवरुन्धीद अपरिमिदा अन्वाह अपरिमसुर्गो लोक सुवर्ग से लोकसम स्तोक्या जुहोदी या वर्ष्या आपह ता अवरुंधे असंजुदी इं वग्वैश्वा नर अस वै नष्ठा भयदी उवाच प्रजापति सोख्यासु वा अहमश्वमेधगुं सघुस्थापयामि तेन तदस्सघ्स्थितेन चरामीति अग्नये स्वाहेत्याह अग्नयै वैनं जुहोदि सोमाय स्वाहेत्याह सोमायै जुहोदि सवित्रे स्वाहेत्याह सवित्रये वैनं जुहोधि सरस्वत्यै स्वाहेत्याह सरस्वत्याये वैनं जुहोधि पूष्णे स्वाहेत्याह पूष्णये वैनं जुहोधि बृहस्पतये स्वाहेत्यह बृहस्पतयये एव वैनं जुहोधि अपमोदाय अद्वये वैनं जुहोदि वायवे स्वाहेत्याह वायवये वैनं जुहोगि मित्राय स्वाहेत्याह मित्रायै यदाभ्य एवैनं देवताभ्यो जुहोति दश दश सम्पादं जुहोदि दशाक्षरा विराड अन्नं विराढ विराजैवान्नाद्यमवरुन्थे प्रवाहेश्वस्मा लोकाच्यवदे यः पराचिराकृतिर्जुहोति पुनः पुनरभ्यावर्तं जुहोति अस्मिन्नेव लोके प्रति तिष्ठति एता पुंहवावसोश्वमेधस्य सघ्स्थितिमुवाचा स्कन्धाय अस्कन्धगुंहि तद यद्यज्ञस्य सघ्स्थितस्य स्कन्दधि प्रजापदयित्वा जुष्टं प्रोक्षामेधि पुरस्ताद प्रत्यङ्ष्ठन् प्रोक्षधि प्रजापतिर्वै देवानामन्नादो वीर्यावान् अन्नाद्यमेवस्मिन् वीर्यं दधाति तस्मादश्वपशूनामन्नादो वीर्यावत्तमः इन्द्राग्निभ्यां त्वे दि दक्षिणदः इन्द्राग्नि वै देवानामो जिष्ठौ बलिष्ठौ भोजयेवास्मिन् बलं दधाति तस्मादश्वपशूनामो ज्येष्ठो वरिष्ठः वायवेत्वेऽधि पश्चाद् वायोर्वैदेवानामाशुसारसारितमः जवमेवास्मिन् दधाति तस्मादश्वपशूनामाशुः सारसारि तमः विश्वेभ्य स्त्वा देवेभ्य इत्युत्तरतः विश्वे वै देवदेवानां यशस्वितमाः यश एवास्मिन् दधाति तस्मादश्व पशूना यशस्वितमः देवेभ्य त्वेत्यधस्ताद देवा वै देवानामपचिततमाः अपचिदिमेवास्मिन् दधाति तस्मादश्व पशूनामपचिततमः सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्ठाद सर्वे वै देवास्त्विषिमन्दो हरस्विनः त्विषिमेवास्मिन् हरो दधाति तस्मादश्वपशूनां त्विषीमान् हरस्वितमः दिवे त्वान्दरिक्षा यत्त्वा पृथिव्यै त्वेत्याह येभ्य एवलोकेभ्यः ये प्रोक्षति सदे त्वा सदे त्वाद्भ्यस्तौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भूदेभ्य इत्याह तस्मादश्वमेधया जिनगं सर्वाणि भूतान्युपजीवन्ति ब्रह्मवादिनो वदन्ति यत्प्राजापत्योश्वः कत कस्मादेन मन्याभ्यो देवताभ्योऽपि प्रोक्षतीति अश्वे सर्वा देवता अन्वायत्तः सै यद्विश्वेभ्यस्त्वा भूदेभ्य यदि प्रोक्षति देवता एवस्मिन्नन्वयात यदि तस्मादश्वे सर्व देवता अन्वायत्ताः यथा वैहविशो गृहीतस्य स्कन्दति एवं वा ये दशस्य स्कन्दति यत्प्रोक्षितमना यद लब्धमुत्सृजन्ति यद् अश्वचरितानि जुहोति सर्वहृदमे वैनं करोत्यस्कन्धाय अस्कन्धुं हि तद् यद्धुतस्य स्कन्धति इङ्काराय स्वाहेङ्कृदाय स्वाहेत्याह यतानि वा अश्वचरितानि चरितैरेवैनगं समर्धयति तदाहुः अनाहुदयो वा अश्वचरितानि नैदाहोदव्या इति अधो खल्वाहुः होदव्या एव अत्र वा वैवं विद्वा नश्वमेधघुं सघुस्थापयति यदश्वचरितानि जुहोति तस्माद्धोतव्या इति बहिर्धावा येन मे दधायतना दधाधिर्भ्राधुर्यमस्मै जनयधि यस्यानायतने एन्यत्राग्नेराकृतिर्जुहोति सावित्रिया इष्ट्या पुरस्तात् स्विष्टकृतः आहवनीयेष्वचरितानि जुहोति आ यतन एवास्याहुतिर्जुहोति नास्मै भ्राद्रव्यं जनयदि तदाहुः यज्ञमुखे यज्ञमुखे होदव्याः यज्ञस्य क्लृप्त्यै सुवर्गस्य लोकस्यानुख्यात्या इति अधो खल्वाहुः यद्यज्ञमुखे यज्ञमुखे जुहुयाद पशुभिर्यजमानं व्यर्धयेद अव सुवर्गालोकात्पद्येत पापीयान्स्यादिति सकृदेव होदव्याः न यजमानं पशुभिर्व्यर्थयति अभिसुवर्गं लोकं जयति न पापीयान् भवति अष्टचत्वारिगुं शतमश्वरूपाणि जुहोति अष्टचत्वारिगुं शतक्षरा जगति जगतोश्वप्रजापत्यसमृद्ध्यै एकमतिरिक्तं जुहोति तस्मादेकप्रजा स्वर्धुकः विभुर्मा प्रभो पिताह इं वैमाता असौ पिता आभ्या मे वैनम दधाधी अश्वसी हयसी तह शास्व ने दस्मा तस्मादश्व सर्वान् पशूनत्येदि तस्मादश्व सर्वेषां पशूनागुश्रैष्ठ्यं गच्छति प्र यस्य श्रैष्ठ्यमाप्नोति य एवं वेद नरो सर्वासि सप्तिरसि वाज्यसीत्याह रूपमेवास्यै तन्महिमानं व्याचष्ट अश्वस्य प्रियं योर्नामासीह्वाश्व प्रियमेयम प्रियन नैनमेय नावदी तस्माद्यां चेधे मित्रम भव आदित्यानां पत्वान्विहीत्याः आदित्याने वैनं गमयदि अग्नये स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमाञ्जुहोति पूर्व एव द्विषन्तं भ्राध्रुव्यमदिक्रामदि भूरसि भुवे त्वा भव्या यत्त्वा भविष्यते त्वेत्युत्सृजति दे सर्वत्वाया देवा आशापाला यदं देवेभ्यो विश्वं मेधाय प्रोक्षितं गोपाय देत्याः शतं वै राजपुत्रा देवा आशापालाः तेभ्य ये वैनं ईश्वरो वा अश्वः प्रमुखदपरां परावदं गन्धोः इह धृधि स्वाहेह विधृधि स्वाहेह रन्धिः स्वाहेह रमधि स्वाहेदि चदृशुपत्सु जुहोति यदा वा अश्वस्य बन्धनं ताभिरे वैनं बध्नाति तस्मादश्वप्रमुखतो बन्धनमागच्छति तस्मादश्वप्रमुखतो बन्धनं न जहति राष्ट्रं वा अश्वमेधः राष्ट्रे खलु वा ये दे व्यायच्छन्ति येष्वं मेध्यगुं रक्षन्ति ते शाय उदृचं गच्छन्ति राष्ट्रादेवदे राष्ट्रं गच्छन्ति धय उदृचं न गच्छन्ति राष्ट्रादेवदेव्यवच्छिद्यन्ते परा यो बलोऽश्वमेधेन यजदे यदमित्रा अश्वं विन्देरन् हन्येतास्य यज्ञः चतुशदा रक्षन्ति यज्ञस्याकाय अधान्यम योक्षेयु सवत अधा प्रजापतिरकामदारश्व यजेदी सतपोत्यन सेमनो देंदा देवदा सा दीक्षा बवद स एतानि वैश्वदेवान्यपश्यद तान्यजुहोद तैर्वै स दीक्षामवारुन्ध यद्वैश्वदेवानि जुहोति दीक्षामेव यजमानो वरुन्धे सप्त जुहोति सप्तहिता देवता उतक्रामन् अन्वसं जुहोदि अन्वहमेव दीक्षामवरुन्धे त्रीणि वैश्वदेवानि जुहोदि चत्वार्यौ ग्रहणानि सप्तसम्पद्यन्ते सप्तवैशेषर्षण्याः प्राणाः प्राणादीक्षा प्राणैरेव प्राणान् दीक्षामवरुन्धे एकविगुंशदिं वैश्वदेवानि जुहोदि एकविगुंशदेर्वै देवलोकाः द्वादशमासाः पञ्च त्रय इमे लोकाः असवादित्य एकविगुंसः येष सुवर्गो लोकः तद्दैव्यं क्षत्रम् सा श्रीः तद्भ्रध्नस्य विष्टपं तत्स्व राज्यमुच्यते तृगं शतमौद्ग्रहणानि जुहोति तृगं शदक्षराविराड अन्नं विराड विराजैवान्नाद्यमवरुन्ते त्रेधा विभज्य देवता आं जुहोधि त्रिया वृतो वै देवाः त्रिया वृदयि मे लोकाः येषाल्लोकानामाप्त्यै ये येषाल्लोकानां क्लृप्त्यै अपवा य तस्मात् प्राणाक्रामन्ति मदिरे च यदि सप्ताहं प्रचरन्ति सप्तवैशीर्षण्याः प्राणाः प्राणादीक्षा प्राणैरेव प्राणान् दीक्षामवरुन्धे पूर्णाहृतिमुत्तमां जुहोदि दी, सर्वं वै पूर्णाहृतिः सर्वमेवाप्नोति अधो इयं वैपुर्नाहुदिः अस्यामेव प्रतिष्ठति प्रजापतिरश्वमेधमसृजद तगुं सृष्टं न किञ्चनोदयच्छद सं वैश्वदेवान्येवोदयच्छन् यद्वै ईश्वदेवानि यज्ञस्योद्यैत्यै स्वाहाधिमाधीताय स्वाहा स्वाहाधीतं मनसे स्वाहा स्वाहा मनःप्रजापदये स्वाहा पायस्वाहा कस्मै स्वाहा पदमस्मै स्वाहेतिः प्राजापत्ये मुख्ये भवतः प्रजापति मुखाभिरेवैनं देवताभिरुद्यते दे। अदित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृळिकायै स्वाहेत्याह इं वा अदितिः अस्याये वैनं प्रतिष्ठा सरस्वत स्वाहा सरस्वत बृह स्वाहा सरस्वतवाहे वागै सरस्वती वाच वै नछ पूवाहा प्रपध्याय स्वाहा नरधिषा स्वाहे त्याह पशवो वै पूषा पशुभिरे वैनमुद्यच्छदे त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेत्याः त्वष्टा वै पशूनां मिथुनानागुं रूपकृद पशुषु दधाधे अधो ऊपैरे वैन मुद्यक्ष विष्णव स्वाहा विष्ण निखुर्वाय स्वाहा विष्ण नि भूयवायस्वाहेत्याो वै विष्णु यछदे पूर्णाहुदिमुत्तमां जुहोति प्रत्युक्ताब्ध्यै सयत्वाय सावित्रमष्टाकपालं प्रादर्निर्वपदि अष्टाक्षरा गायत्री गायत्रं प्रादस्सवनं प्रादस्सवना देवैनं गायत्री या छन्दसोऽधि अधो प्रातःसवनमेव ते नाप्नोति गायत्रीं छन्दः सवित्रे प्रसवित्र एकादशकपालं मध्यं दिने एकादशाक्षरा तिष्ठुपत्रैष्टुभं माध्यं दिनगुं सवनं माध्यन् दिना देवैनगुं सवन्ना निर्मिमीते अधो दिनमेव सवनं तेनाप्नोति त्रिष्टोभं छन्दः सवित्र आसवित्रे द्वादशकपालमपराह्ने द्वादशाक्षरा जगदी जागदं तृतीयसवनम् तृतीयसवना देवैनं जगत्याश्चन्दसोधि निर्मिमीदे अधो तृतीयसवनमेव तेनाप्नोति जगतीं चन्दः ईश्वरो वा अश्वप्रमुखपरां परावदं गन्धोः इह धृदि स्वाहेह विधृदि स्वाहेह रन्धिस्वाहेह रमधिस्वाहेदि चतस्र आहुतीर्जुहोति चतस्रो दिशः दिग्भिरेवैनम् परिगृह्णाति अश्वो व्रजो भवति प्रजापतिर्देवेभ्यो निलायत अश्वोरूपम् कृत्वा सोऽत्थे संवत्सरमतिष्ठद तदश्वत्वं यदा श्वद्धो व्रजो भवति स्वय वैनयोनौ प्रतिष्ठापयदि आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चस्सी जायदामित्याह ब्राह्मण एव ब्रह्मवर्चस्सं दधाति तस्मात् पुरा ब्राह्मणो ब्रह्मवर्चस्य जायद अस्मिन् राष्ट्रे राजन्य इषव्यशूरो महारधो जायता मिथ्याह राजन्य एव महिमानं दधाति तस्मात् पुरुराजन्य इषव्यशूरो महारथो दोग्ध्री देनुरित्याह धेन्वामेव पयो दधाति तस्मात् पुरा दोग्ध्री धेनुरजा यदा वोढानड्वा नित्याह तस्मात् पुरा वोठा नड्वा न जायद आशुसप्तिरित्याह अश्व एव जवं दधाति तस्मात् शुरश्वो जायद पुरन्तिोषेत्याह योषित्येव रूपं दधाति तस्मात् स्त्री युवधिप्रिया जिष्णुरथेष्ट इत्याह अह वै तत्र जिष्णो रथेष्ठ जायते यत्रैतेन यज्ञेन यजन्ते सभेयो युवेत्याह यो वैभो वयसि सभेयो युवा तस्माद्युवा पुमान् प्रियो भावुकः अस्य यजमानस्य वीरो जायतामित्याह आहवै तत्र यजमानस्य वीरो जायते यत्रैतेन यज्ञेन यजन्ते निकामे निकामेन पर्जन्यो वर्षत्वित्याह निकामे निकामे हवै तत्र पर्जन्यो वर्षति यत्रैतेन यज्ञेन यजन्ते फलिन्यो न ओषधयः पच्यन्दामित्याह फलिन्यो हवै वै तत्र औषधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो न कल्पदामित्याह कल्पदे ह वै तत्र प्रजाभ्यो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते प्रजापतिर्देवेभ्यो यज्ञान् व्यादिशद स आत्मन्नश्वमेधमधत्तः तं देव अब्रुवन् येष भावयज्ञः यदश्वमेधः अप्येव नोत्रास्त्विति तेभ्य येदानन्नहो मान् प्रायच्छद तान जुहोद तैर्वैसदेवानप्रीणाद यदन्नहो मान् जुहोति देवानेव तैर्यजमानप्रीणादि आज्येन जुहोति अग्नेर्वा यद्रूपं यदाज्यं यदाज्येन जुहोति अग्निमेव तत् प्रीणादि मधुना जुहोति यन्मधु यन्मधुना जुहोति महतीमेव तद्देवतां प्रीणादि तण्डुलैर्जुहोति वा एतद्रूपं यत्तण्डुलाः यत्तण्डुलैर्जुहोति वसूनेव तत्प्रीणादि पृथुकैर्जुहोति रुद्राणां वा ये दद्रूपं यत्पृथुकाः यत्पृथुकैर्जुहोती रुद्राणेव तत्प्रीणादि लाजायर्जुहोदि आदित्यानां वा ये दद्रूपं यल्लाजाः यल्लाजायर्जुहोदि आदित्यानेव तत् प्रीणादि करं भैर्जुहोदि विश्वेषां वा ये तद्देवानागुं रूपं यत् करम्बाः यत्करं भैर्जुहोदि विश्वानेव तद्देवान् प्रीणादि धानाभिर्जुहोदि नक्षत्राणां वा एदद्रूपं यद्धानाः नक्षत्राण्येव तत्प्रीणादि सक्तुभिर्जुहोदि प्रजापदेर्वा एतद्रूपं यत्सक्तवः प्रजापदिमेव तत्प्रीणादि मसूस्यैर्जुहोदि सर्वासंवा ये दद्देवतानागुं यन्मसूस्यानि यन्मसूस्यैर्जुहोती सर्वा एव तद्देवताप्रीणादि प्रियङ्गुतण्डुलैर्जुहोति प्रियङ्गा है येतैर्वै देव अश्वस्याङ्गानि समदधुः यत्प्रियङ्गुतण्डुलैर्जुहोदि अश्वस्यैवाङ्गानि सन्दधाति दशान्नानि जुहोदि दशाक्षरा विराड विराट् कृष्णस्यान्नाद्यस्यावरुध्यै प्रजापदिरश्वमेधमसृजद तगुं सृष्टगुं रक्षागृस्य जिखागुंसन् स एदान् प्रजापतिर्नक्दगुं होमान्पश्यद तानजुह्वोद तैर्वैस ता यज्ञाद्रक्षा गस्यापाहन् यन्नक्दगं होमान् जुहोदि यज्ञादेवतैर्यजमानो रक्षा गृहस्यपहन्ति आज्येन जुहोति वज्रो वा आज्यं वज्रेणैव यज्ञा द्रक्षा गृहस्यपहन्ति आज्यस्य प्रतिपदं करोति प्राणो वा आज्यं मुखद एवास्य प्राणं दधाति अन्नहो माञ्जुहोदि शरीरवदेवा वरुन्धे व्यत्यासं जुहोदि उभयस्या वरुध्यै न कुदं जुहोदि रक्षसामपहत्यै आज्येनान्ततो जुहोदि प्राणो वा जुहो जुहो आज्यम् उभयदये वा अस्य प्राणं दधाति पुरस्ता चोपरिष्टा च चे कस्मै स्वाहेत्याह अस्मिन्नेवलोके प्रतितितितितितितितितितितिष्ठति द्वाभ्याग् स्वाहेत्याह अमुस्मिन्नेवलोके प्रतितितितितितितितितितितिष्ठति उभयोरेवलोकयो प्रतितितितितितितितितितितिष्ठति अस्मि घिष्टामुष्मिघिष्ट शता यस्वाहेत्याह शता योर्वै पुरुषदवीर्यः आयुरेव वीर्यमवरुन्धे सहस्राय स्वाहेत्याह आयुर्वै सहस्रम् आयुरेव सर्वस्मै स्वाहेत्यः अपरिमिदमेवा वरुन्धे प्रजापदिं वा एष ईप्सदित्याहुः यजद इति अधो आहुः सर्वाणि बोधानिधि यैकस्मै स्वाहेत्याह प्रजापतिर्वा एकः तमेवाप्नोति एकस्मै स्वाहा द्वाभ्याग् स्वाहेत्यभि पूर्वमाहुतिर्जुहोधि अभि पूर्वमेव सुवर्गं लोगमेति ोत्तरं जुहोति एकवदेव सुवर्गल्लोकमेधि सन्दतं जुहोधि सुवर्गस्य लोकस्य सन्दत्यै शताय स्वाहेत्याह शतायुर्वै पुरुषशतवीर्यः आयुरेव वीर्यमवरुन्धे सहस्राय स्वाहेत्याह आयुर्वैसहस्रम् आयुरेवावरुन्धे अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहेत्याः त्रय इमे लोकाः इमानेव लोकानवरुन्धे अर्बुदाय स्वाहेत्याः वाग्वा अर्बुदम् वाचमे वावरुन्धे न्यर्बुदाय स्वाहेत्याह यो वै वाचो भूमः तन्न्यर्बुधं वाच एव भूमानमवरुन्धे समुद्राय स्वाहेत्याह समुद्रमेवाप्नोति मध्याय स्वाहेत्याह मध्यमेवाप्नोति अन्धाय स्वाहेत्याह अन्धमेवाप्नोधि परार्थाय स्वाहेत्याः परार्थमेवाप्नोधि उषस्ये स्वाहा उषाः अहर्व्युष्टिः अहोरात्रे ये अधो अहो रात्रयोरेव प्रतिष्ठति ता यदु यदुभैर्दिवा वा नक्दं वा जुहुयाद अहो रात्रे मोहयेद उषस्य स्वाहा व्युष्ट्यै स्वाहो देष्यदे स्वाहोद्यदे स्वाहेत्यनुदिदे जुहोदी उदिताय स्वाहा सुवर्गय स्वाह लोकाय स्वाहे दुदि जुहोति अहोरात्रोहाय विभुर्मा प्रभु पित्रेस्वना जुहोति उभयो रे नामधे वै नामधेयं गमयति अयनाय स्वाहा प्रायणाय स्वाहेत्युद्रा वाञ्जुहोदि सर्वमेवै नमस्कन्नं सुवर्गं लोकं गमयदि अग्नये स्वाहा सोमाय स्वाहेधि पूर्व ओमाञ्जुहोदि पूर्वयेवद्विषन्तं भ्राधृव्यमधिक्रामदि पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्याः यथा यजुरेवै तद अग्नये स्वाहा सोमाय स्वाहेदि पूर्वदीक्षा जुहोदि पूर्वयेवद्विशन्तं भ्राधर्व्यमदिक्रामदि पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्ये कविगुं शिनीं दीक्षां जुहोधि ये कविगुंसदिर्वै देवलोकाः द्वादशमसपञ्चर्तवः त्रय इमे लोकाः असवाधित्य एकविगुंसः एष सुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्यै भुवो दीक्षा कर्मणेत्यर्दीक्षा जुहोधि ऋतूनेवास्मै कल्पयति अग्नये स्वाहा वायवे स्वाहेदि जुहोक्त्यनन्तरित्यै अर्वाङ्सङ्क्रामत्वित्याप्तिर्जुहोधि सुवर्गस्य से लोकस्या भूत भव्यम भविष्य पर्याप्तिर्जुधि सुवर्ग से लोकस परई आम गृह भवंर्जुहोधि सुवर्ग से लोकस्ू अग्निना तपोन्व भवदीुर्जुदी सुवर्गस्य लोकस्यानुभूत्यै स्वाहाधिमा गीता यस्वाहेदि नमस्तानि वैश्वदेवानि जुहोति समस्तमेव द्विषन्तं भ्रादर्यमधिक्रामदि दद्भ्यः स्वाहा मां जुहोदि अङ्गे अङ्गे वै पुरुषस्य पाप्मोपसृष्टः अङ्गादङ्गादैवैनं पाप्मनस्तेन मुञ्चति अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोति रूपैवैनगं समर्धयदि ओषधीभ्य स्वाहा मूलेभ्यः स्वाहेत्योषधि होमाञ्जुहोधि द्वयो वा ओषधयः पुष्पेभ्योऽन्यः फलं गृह्णन्ति मूलेभ्योऽन्याः तायेवो भगिरवरुन्धे वनस्पतिभ्य स्वाहेदि वनस्पति होमाञ्जुहोदि आरण्यस्यानाद्यस्या वरुध्यै मेषस्त्वा पञ्चतैरवद पित्यपाव्यानि जुहोदि अपाव्याः प्राणाने वरुन्धे कोप्याभ्य स्वाहाद्भ्य स्वाहे त्यपागुं हो मांजुहुदि अप्सु वा आपहा अद्भ्यो वा अन्नं जायते यदेवाद्भ्योऽन्नं जायधे तदवरुन्धे अम्भागुं सिजुहुदि अयं वै लोकादम्भागुंसि तस्य वसवोऽधिपदयः अग्निर्ज्योतिः यदम्भागुंसि जुहोदि इमेव लोकमवरुन्धे वसुनागुं सायुध्यं गच्छति अग्निं ज्योतिरवरुन्धे नभागुंसि जुहोदि अन्तरिक्षं वै नभागुंसि तस्य रुद्रा अधिपतयः वायुर्ज्योतिः यन्न भागुंसि जुहोदी वा गच्छति वायुं ज्योतिरवरुन्धे महागुंसि जुहोदि असौ वै लोको महागुंसि सूर्यो ज्योतिः यन्महागुंसि जुहोति अमुमेव लोकमवरुन्धे आदित्यानागुं सायुज्यं गच्छति सूर्यं ज्योतिरवरुन्धे नमो राज्ञे नमो वरुणा येदि यव्यानि जुहोति अन्नाद्यस्य वरुध्यै मयोभूर्वादोऽ वा तुस्रा इति गव्यानि जुहोधि पशूनामवरुध्यै प्राणाय स्वाहा व्यानाय स्वाहेदि सुवर्गस्य लोकस्य सन्तत्यै स्विताय स्वाहासिताय स्वाहेदिप्रमुक्तिर्जुहोदि सुवर्गस्य लोकस्य प्रमुखु यै पृथिव्यै स्वाहान्तरिक्षायस्वाहेत्याह यथा यजुरे वै ददत्वदे स्वाहा दन्तकाय स्वाहेति शरीर होमाञ्जुहोति पितृलोकमे वत्तैर्यजमानो वरुन्धे कत्वा युनक्रिसत्त्वा युनक्विधि परिधीन् युनक्रि इमे वै लोकाः परिधयः इमानेवास्मै लोकान्युनक्रि सुवर्गस्य लोकस्य समष्ट्ययि यः प्राणदो यदि महिमान्नौ जुहोति सुवर्गो वैलोको लोको महः सुवर्गमेवताभ्याल्लोकै यजमानो वरुन्धे अब्रह्मन् ब्राह्मणो ब्रह्मवर्चसि जायतामिति समस्तानि ब्रह्मवर्चसानि जुहोधि ब्रह्मवर्चस्समेवतैर्यजमानो वरुन्धे जग्नि बीजमिति द्युहोत्यनन्तरित्यै अग्नये समनमद पृथिव्यै समनमदिति सन्नधि होमाञ्जुहोदि सुवर्गस्य लोकस्य सन्नत्यै भूताय स्वाहा भविष्यदे स्वाहेदि भूदा भव्यौ होमौ जुहोदि अयं वै लोको भूतम् असौ भविष्यद अनयोरेव लोकयोः प्रदितिष्ठति सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै यतक्रन्थप्रथमं जायमान इत्यश्वस्तोमीयं सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवतेनाप्नोधि सर्वञ्जयधि यजते य उचैनमेवं वेद यज्ञगुं रक्षागुस्यजिह्सन् स एदान् प्रजापदिर्नक्दकुं होमानपश्यद तानजुहोद तैर्वैस यज्ञाद्रक्षागुष्यपाहन् यन्नक्दह् होमान् जुहोदि यज्ञादेवतैर्यजमानो रक्षागस्य पहन्ति उषस्य स्वाहा व्युष्ट्यै स्वाहेत्यन्ततो जुहोति सुवर्गस्य लोकस्य समष्ट्यै एकयूपो वैकादशिनी वा अन्येषा आ यज्ञानां यो उपा भवन्ति श्वर्ग से लोकस्याजिविरो वा पलाशो व्यज्ञक्रदूपंति राजुदालागं सत्यरधर्ग से लोकसम नान्येषा आं पशूनां तेजन्या अवध्यन्ती अवद्यन्त्यश्वस्य पाप्मा वै ते जनी पाप्मनोपहत्यै प्लक्षशाखाया मन्येषा अं पशूनामवद्यन्ति वेदशखायामश्वस्य अप्सु यो निर्वा अश्वः अप्सुजो वेदसः स्वयेवस्य यो नाववद्यधि यूपेषु ग्राम्यान् पश्यून् नियुञ्जन्ति आरोकेष्वरण्यान् धारयन्ति पश्यूनां व्यावृत्यै आग्राम्यान् पश्यून् लभन्ते प्रारण्यान् सृजन्ति पाप्मनोपहत्यै राजुदालमघ्निष्टं मिनोदि भ्रोणहत्याया अपहत्यै पौ दुद्र वावभिदो भवतः पुण्यस्य गन्धस्यावरुह्यै भ्रोणहत्यामेवास्मादपहत्य पुण्येन गन्धनोभयध परिगृह्णादि षड् बैल्वा भवन्ति ब्रह्मवर्चसस्यावरुध्यै खड्गाधिराः तेजसो वरुध्यै षड्पालाशाः सोमपि दस्यावरुद्ध्यै येकविगंशदि एक सम्पद्यन्ते एकविगुंशदिर्वै देवलोकाः द्वादशमासा पञ्चर्तवः त्रय इमे लोकाः असवादित्य एकविगुंशः एष सुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्यै शतं पशवो भवन्ति शतायुपुरुषशतेन्द्रियः आयुष्यवेन्द्रिये प्रतिष्ठति सर्वं वा अश्व मेध्याप्नोति अपरिमिता भवन्ति अपरिमितस्यावरुद्ध्यै ब्रह्मवादिनो वदन्ति कस्मात् सत्याद दक्षिणतोऽन्येषां पशूनाम वद्यन्ति उत्तरतोश्वस्येति वारुणो वा अश्वः येषा वै वरुणस्यधिक स्वायामेवास्य दिश्य वद्यधि यदि दरेषां पशूनां वद्यति शदधेवद्यं तेनावरुन्धे चितेघ्नावधि वैदसे कडेश्वं चिनोदि अप्सु यो अप्सुजो वेदसः स्वये वैनयो नौ प्रतिष्ठापयधि पुरस्तात्प्रत्यञ्जं तूपरं चिनोति पश्चात्प्राचीनं गोमृगम् प्राणापानावेवास्मिन् सम्यञ्चौ दधाति अश्वं तु परं गो मृगमिति सर्वभुदा यदा जुहोति येषा लोकानामभिजित्यै आत्मनाभिजुहोदि सात्मानमेवैनगुम् सतनुं करोति सात्मामुष्मिन्लोके भवति य एवं वेद अधो वसो रेवधारां तेना वरुन्धे इलुवरदाय स्वाहा बलिवर्दाय स्वाहेत्याः संवत्सरो वा इलुवरुदः परिवत्सरो बलिवरुदः संवत्सरा देवपरिवत्सरा दायुरवरुन्धे आयुरेवास्मिन् दधाति तस्मादश्वमेधयाजीजरसा विस्रसा मुल्लोकमेति हे एकविगुंशस्तोम एकविगुंशदिर्युपाः यथा वा अश्वा वर्षभा वा वृषाणस्सघ्स्फुरेरन् एवमे द स्तोम सघ् स्फुरन्ति यदेकविगुंसाः ते हन्येतास्य यज्ञः द्वादश एव अग्निस्यादित्याहुः द्वादश स्तोमः एकादशयूपाः यद्वादशोऽग्निर्भवति द्वादशमासा संवत्सरः संवत्सरेणैव स्म अन्नमवरुन्धे यद्दशयूपा भवन्ति दशाक्षरा विराड अन्नं विराड विराजैवानाद्यमवरुन्धे य एका दशः स्तन एवास्यै सः दोहये वैनान्तेन तदाहुः यद्वादशोऽग्नि स्याद् द्वादशस्तोम एकादशयूपाः यथा स्तुरिणायाद ये कविवंशये वाग्निस्यादित्याहुः ये कविवंशस्तोमाः या ये कविगंशतिर्यूपाः यथा प्रष्टिभिर्यादि तादृगेव तद यो वा अश्वमेधे तिस्र खगुभो वेद खगुग्धराज्ञां भवति एघविगुंसोऽग्निर्भवति एघविगुंशस्तोमः एगविगुंसदिर्यूपाः एता वा अश्वमेधे तिस्र कगुभहा य एवं वेद कगुद्धराज्ञाम्भवति यो वा अश्वमेधे त्रीणि शीर्षानि वेद शिरोहराज्ञा अम्भवति एकविगुंसोऽग्निर्भवति एकविगुंस स्तोमः एकविगुंसदीर्यूपाः एतानि वा अश्वमेधे त्रीणि शीर्षाणि य एवं वेद शिरोः राज्ञां भवति देवा अश्वमेधे पवमाने सुवर्गल्लोगन्न प्राजानन् तमश्वप्राजानाद यदश्वमेधेश्वेन मेध्येनो दंशो बहेष् पवमानगुं सर्पन्ति सुवर्गस्य लोगस्य प्रज्ञात्यै न वै मनुष्यसुवर्गल्लोकमञ्चसा वेद अश्वो वै सुवर्गल्लोकमञ्चसा वेद यदुद्गातोद्गायेद् यथा क्षेत्रज्ञोऽन्येन तथा तादृस्तद पारमपरुध्य अश्वमुद्गीधाय वृणीधे यथा क्षत्रज्ञोऽञ्जस्सानयदि एव मे वैनमश्व सुवर्गल्लोकमञ्जस्सानयदि पुच्छमन्वारभन्ते सुवर्गस्य लोगस्य समष्ट्यै हिं करोति सा मयि वाकः किं करोति उद्गीदयेवास्य सः वड्बा उपरुन्धन्ति मिधुनत्वाय प्रजात्यै अयो यथोपघातार उपगायन्ति तादृगेव दद उदघास्यीदश्वो मेढ्य इत्याह प्राजापत्यो वा अश्वः प्रजापतिरुद्गीधः उद्गीधमेव वरुन्धे अधोरुक्सामयोरेव प्रतिष्ठति हिरण्येनोपाकरोति ज्योतिर्वै हिरण्यं ज्योतिरेव मुखदो दधाति यजमाने च प्रजासु च अधो हिरण्यज्योतिरेव यजमानः सुवर्गल्लोकमेति पुरुषो वै यज्ञः यज्ञप्रजापतिः यदश्वे नियुञ्जन्ति यज्ञादेव तद्यज्ञं प्रयुङ्क्ते अश्वं तू परं गोमृगं तानग्निष्ट आलभदे शनामुखमेवत्तस्मात् राजमुखं भीष्मं भावुकम् आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे पूर्वाग्निमेवतं कुरु ते तस्मात् पूर्वाग्निं पुरस्तास्थापयन्ति पौष्णमन्वञ्जम् अन्नं वै पूषा तस्मात् पूर्वाज्ञा वाहार्यमाहरन्ति ऐन्द्रा पौष्णमुपरिष्ठाद ऐन्द्रो वै राजन्योऽन्नं पूषा अन्नाद्य नै वै तस्माद् राजन्यो भावुकः आग्नेयौ कृष्णग्रीवौ बाहुवोः बाहुवोर्वेवव वीर्यं धत्ते तस्माद्राजन्यो बाहुबली भावुकः त्वाष्ट्रौ लो मषष्टौ सभ्योः सभ्योरेव वीर्यं धत्ते तस्मात् राजन्य ऊरुबलीभावुकः क्षितिपृष्ठौ भारुकस्पत्यहौ पृष्ठे ब्रह्मवर्चस अधो कवचे एवैदे अभिदः पर्युहते तस्मात् राजन्यसन्नद्धो वीर्यं करोति धात्रे पृषोदरमधस्ताध प्रदिष्टा मे वैदां कुरुते अधोयं वैदाध अस्य मे वप्रदितिष्ठति सौर्यं बलक्षं पुच्ये ए तं कुरुते तस्मादुत्सेधं भये प्रजा अभिषगं श्रयन्ति हरिः ॐ